प्रातः संस्त्रस्त भोज क्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभि ययुषि गते नन्द गोपेऽपि हम्यु कंसे सौदाधिरूढे त्वमपि सः बलस्थानुगच्छारुवेषो रङ्गत्वा रङ्गतो अभूः कुपित कुबलया